मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं ट्वेण्टिवन् गणेशस्तोत्रोत्तमवर्णनम् श्रीगणेशाय नमः शौनक उवाच कथं स्तुतिकृदातेन गणेशस्य महात्मनः तां मे वदमहाभाग सर्वज्ञोऽसि मदो बुधैः सूत उवाच भवते कथयिष्यामि भावयुक्ते न चेदसा स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने मुद्गल उवाच किं स्तौमि त्वां गणाध्यक्ष वेदै न शक्यते ब्रह्मादिभिश्च योगीन्द्रव्यथामति च वच्मि भोः त्वद्दर्शनप्रभावेण शक्तोऽस्मि न च संशयः त्वदनुग्रहतः सर्वे स्तोतुं शक्ता भवन्ति वै नमस्ते गणेशाय सर्वादिभूम्ने परेषां परेशाय वेदादिगाय परमायिने मायिनां मोहदात्रे गण्याय गण्यायते वै नमस्ते पुराणादिशास्त्रै सदा संस्तुताय शिवाद्यै सुरेन्द्रैर्नमस्ते स्तुताय अनाद्यन्तमध्यादिभेदैर्विहीनाय नानामया यास्तु सर्वेश्वराय नमो लक्षवेदाष्टयोनिप्रचार तदाकाररूपाय योगेन योगिन् नमो ह्यन्नभूताय सर्वाकराय कलानन्दरूपाय पुष्टिप्रदाय नमो भूमि रूपाय नाना भूमिभेदराय धारा निस्तु जलाधिस्वूपय तृप्ति प्रदा तदाहीनाय साराय धाने नमस्ते ज्योतूपा ढुंडे प्रकाशा भोक् सर्वस्थिताय नमो वायुरूपाय ते चालकाय प्रचारस्वरूपाय भिन्नाय तस्मात् नमः स्वस्वरूपाय दीप्ताय पूर्णप्रकाशाय भूतादिकब्रह्मदात्रे नमस्ूलभोगस्वरूपाय जाग्रन्मयाय प्रभो राजसायाधदेस्तु नमः स्वप्नमायामयापि सूक्ष्मस्वरूपाय सर्वांदरे संस्थिताय नमः कारणायो भयब्रह्मदाय समायापि सौषुप्तभोगिन्नमस्ते नमश्चेतनाधाररूपाय तेस्तु प्रयत्नप्रदाय त्रिभोगप्रदाय गुणेशाय चैतन्यधाराय तेस्तु नमो नादरूपाय कालाय चात्मन् नमो बिन्दुरूपाय वक्राननाय नमो देहमाय विहाराय तुभ्यम् न मत्सित्स्वरूपाय सोकं प्रदाय निराकारदेहिस्वरूपाय तेस्तु सदा ह्येकदन्ताय जन्मादिकाय परायाधशून्याय मदादेश्च शत्रो महाकुध्वजाय नमो नादिसिद्धाय मायाधराय नमो ज्ञानरूपाय नानाविहारप्रदायाधपूर्णाय सर्वत्रगाय नमो मायि मायादिभेदाकराय सदा बोधरूपाय महात्मन् नमः सांख्यरूपाय वै देहीनां वै पराय स्वसंभोगहीनाय देव सदा केवलब्रह्मभूताय मेधामयाय नमः स्वस्वरूपाय चानन्ददाय समाधिस्वरूपाय मौनात्मकाय स्वसंवेद्ययोगेन लभ्याय तेस्तु विनात्मप्रबोधाय सर्वाधिपाय नमः पञ्चपञ्चाधिमायाकराय चतुर्थ चतुर्था विभिन्नाय धर्मिन् असद्रूपकायाथ शक्रियात्मकाय नमो भेदभेदादिनात्मकाय न मत्सत्स्वरूपाय सूर्यात्मकाय सदात्मप्रबोधाय मायाधराय अखण्डामृतायाद्वितीयाय तेस्तु सदा कालकालाय मोक्षप्रदाय नमो विष्णुरूपाय चानन्ददाय समायस्वमायो भयसृष्ट एव अनन्ताय भेदादिहीनाय भूमने सदाभेदरूपाय भेदरूपाय सर्वात्मकाय नमः शम्भुरूपाय नेधिप्रदाय सदा, ने सदा मोहीनाय चत्र्यम्बकाय त्रिथा मायया भासिदुर्यस्वरूप परब्रह्मरूपाय ते धूम्रवर्ण चतुर्नामभेदाय संयोगकारिन् स्वसंवेद्यभावेन विघ्नाधिपाय स्वभक्तस्य पक्षे सदा संस्थिताय गणाधीशहन्त्रे महादैत्यकानाम् नमः कर्मरूपाय कर्मादिकर्त्रे जनानां स्वकर्मादिना नमस्ते समानप्रदायो भयाय समा चानन्ददाय नमः साहजब्रह्म भूयप्रदाय त्रिधां नेत्रिहीनाय सन्तोषदाय चतुर्थास्तिदीनां सदापालकाय निजात्मस्वरूपाय संयोगपारिन् अपारायनाचतुर्णां समूहेष्वधीशाय हेरम्ब तुभ्यं नमस्ते अयोगाय मायाविहीनाय तुभ्यं नमस्ते निरानन्दरूपाय नित्यं निवृत्तिस्वरूपाय भिन्नाय तेस्तु नमो योगरूपा समाधिस्थिताय नमो योग शूपा शांति प्रदा गणेशा योगा तोभ्यं सदा ब्रह्मण ब्रह्मदात्रेखिशा पद ज्येष्ठराजा तेस्त नमो ब्रह्मणे सृष्टिकर्े सदा वै रजोदारिणे वेद शास्त्रकर्े सदा सृष्टिहीनाय साम्याय नमो नमो मायिने मध्यवृद्धिस्थिताय नमः सत्त्वरूपाय विष्णुप्रभेदाजगत्पालकायाथ मायाधराय नमः सत्त्वहीनाय सर्वाधिगाय कवीनां पदे नमस्ते नमस्तामसायाधसंहारकर्त्रे त्रिनेत्रप्रदीपाय शक्तेर्धराय सदाकालरूपाय कैलासदाय तमोहीनरूपाय लम्बोदराय नमः कर्मणा मूलबीजाय नमो भानुरूपाय ते जोमयाय त्रिकालादिबोधाय सूर्याय भूम्ने प्रकाशैर्विहीनाय हैरम्पदेस्तु नमः शक्तिरूपाय मोहप्रदाय क्रियाधारभूदाय नानाभ्रमाय अनन्दस्वरूपाधिलीलाधराय नमः शक्तिहीनाय सिद्धिष्यतुभ्यं नमश्चन्द्ररूपाय पुष्टिप्रदाय कलाभिस्त्रिलोकस्तभूतादिकेभ्यः सुधाधारकायाध नक्षत्रकाधिप्रकाशाय ते नमः कामरूपाय कामारयेते नमस्ते गजाकारतुण्डाय तुभ्यम् हरीन्द्रादिदेवैः सदा संस्तुताय शुकाद्यैर्महद्भिश्च वन्द्याय ते अनित्याय नित्याय देवे स देव सकामाय निष्कामभावप्रदाय सदा सर्वपूज्याय सर्वाधिपाय जलेशेन्द्रशेषादिभिः संस्तुताय नमः काश्यपायाथ वै कापिलाय वरेण्यस्य पुत्राय पाराशराय नमः शम्भुपुत्राय पार्श्वात्मजाय नमो भक्तिभोक्त्रे गणाधीशते नमो माधवस्त्रीसुदायाथ तुभ्यं नमः सर्वमात्रे नमः सर्वपित्रे नमः सर्वपुत्राय सर्वात्मकाय नमः सर्वसर्वाय नानामयाय नमः पाशधारिन् नमो दन्तधारिन् शृणीं बिभृदे वै सदानन्ददायिन् नमः पुत्रपौत्रादिराज्यप्रदात्रे नमो भुक्तिमुक्तिप्रदायाधतुभ्यं नमो नन्दशक्तिर्गुणानामधीश मयूरेशयोगेशमायेशतुभ्यम् नमो व्यक्तसुव्यक्तरूपाय दन्दिन् गजाकारसाकारमोहाय ते स्तु नमो ह्यकरूपाय नानाप्रभेदादये विघ्नपालाय शुण्ठाद्धराय अनाधायनाधाय देवादिकानां निवासाय सर्वात्मनां ते नमो वै नमस्त्वं पदाकारदेहाय तुभ्यं नमस्तत्पदाकारतुण्डाय ते स्तु तयोरेकभावासिरूपप्रयुक्तशरीराय साक्षात् सुधाम्ने नमस्ते नमो वामभागेन सिद्धिस्वरूपा धृता मोह मायाजनानां जनित्री सदा बुद्धिरूपाधृता दक्षिणाङ्गे न पुंस्त्रीस्वरूपासि रूपायते स्तु नमो ब्राह्मरि त्वम्बदाधारशक्तिः सदा तत्पदा कामदात्रीह्यभेदा तयोरेकभावे का स्वसं वेद्यनाम्नि पुरे मस्तके वासकारिंश्च तासाम् अखण्डामृतं यत्र तोयं समुद्रे स्थितं चेक्षु संज्ञे नमस्ते निराधाररूपे च पानेन तस्य न पुंस्त्रीप्रदायात्र केलंश्च तेस्तु जनानां सदात्र्यक्षरं शृण्वतां च गणेशेदि चानन्ददायिन्नमस्ते सकृज्जल्पदाम् जन्ममृत्युनतेषामपारप्रधाम्ने च डुण्ढीश्वराय तवोपसका ब्रह्मभूता न चित्रं जनेभ्यश्च संस्पर्शनायुर्ब्रह्मदा वै सुरेन्द्रादिपूज्या गणेशस्वरूपा भवेयुर्नमस्ते नमस्ते, नमस्ते गणेश सुत उवाच युधि स्तुत्वा गणेशानां मौनधारकः पादौ धृत्वा गणेशस्य पदितो दण्डवत्क्षितौ समुद्धाप्य स्वभक्तं तं सत्स्वजे परमादराद गजाननप्रसनात्मा तमुवाच महामुनिं गणेश उवाच त्वया स्तोत्रं कृतं यच्च मदीयं मम सन्निधौ स्तोत्रोत्तमं प्रविख्यातं भविष्यदिनसंशयः स्तोत्रोत्तमे न मां तस्मै मुक्त्रिं स ददामि दृढभक्रिं च मदीयां नात्र संशयः न च प्राप्नोति स नरोत्तमः पुत्रपौत्रादिकं सर्वं धनं धान्यं ददामि वै मारणोच्चाटनादीनि नश्यन्ति पठनेन च एकविंशतिवारं च तथा ता तावद्धिनावधि कारागृहादिजाः पीडा नश्यन्ति पठनेन च मनसेप्सिदमाप्नोति नरो नरोमे परमप्रियः त्वं तु मत्तो वरान् ब्रूहि दास्येकं भक्तियन्त्रितः त्वत्समो नास्ति भावज्ञो वश्येतेकं सदा ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशस्तोत्रोत्तमवर्णने एकविंशतितमोऽध्यायः ॐ